गर्गसंहिता खण्डम् टु वृन्दावनखण्डम् अध्यायम् फिफ्टीन् राधाकृष्णप्रेमोद्योगवर्णनम् श्रीनारद उवाच इदं मयादेकधिदम् कालीयस्यापि मर्दनम् श्रीकृष्णचरितं पुण्यम् किम्भूय श्रोतुमिच्छसि बहुलाश्व उवाच श्रीकृष्णस्य कथां श्रुत्वा भक्तस्तृप्तिं न यादिः यथा पीत्वा यथा जिः पद्मकर्णिकां रासं कर्तुम् अरौजादे शिशुरूपे महात्मनि भाण्डीरे देव वागाह श्रीराधां भिन्नमानसां शोचम् आ कुरु कल्याणि वृन्दारण्ये मनोहरे मनोरथस्ते भविता श्रीकृष्णेन महात्मनि युद्धं वेद इद्धं, इद्धं देवगिरा प्रोक्तो मनोरथमहार्णवः कथं बभूव भगवान् वृन्दारण्ये मनोहरे कथं श्रीराधया रासक्रीडां मनोहरां चकार वृन्दकारण्ये तमस्वयं श्रीनारद उवाच साधु पृष्ठम् त्वया राजन् भगवच्चरिदम् शुभम् गुप्तम् वदामि देवैश्च लीलाख्यानम् मनोहरम् एकदा मुख्यसख्यौ द्वे विशाखा ललिदे शुभे वृषभानोर्गृहम् प्राप्य ताम् राधाम् जग्मदूरहः सख्यावुचदुः यं चिन्तयसि राधे त्वं यद्गुणं वदसि स्वतः सोऽपि नित्यं समायादिवृषभानुपुरैर्भकैः दर्शनीयोदिसुन्दरः पश्चिमायां निषिद्धिन्यां गोचारणविनिर्गतः राधोवाच लिखित्वा तस्य चित्रम् हि दरिष्य यास्यु मनोहरम् तर्हि तत्प्रेक्षणम् पश्चात् करिष्यामि न संशयः श्रीनारद उवाच अथ सख्यौ व्यलिखताम् चित्रम् नन्दशिष्यो शुभम् न वयौवनमाधुर्यम् राधायै ददतु स्वरम् तद्दृष्ट्वा हर्षिधाराधा कृष्णदर्शनलालसा चित्रं करे प्रपश्यन्ती सुष्वापानन्दसङ्कुला ददर्शकृष्णं भवने शयाना नृत्यन्तमाराधुवृषभानुपुत्री तदैव राधा शयनात् समुद्धिदा परस्य कृष्णस्य वियोगविह्वला सञ्चिन्तयन्ती कमनीयरूपिणं मेने त्रिलोकं तृणवद्विदेहराट तर्ह्या व्रजन्तं स्वपनाद्व्रजेश्वरं सङ्कोचविद्यां वृषभानुपतने गवाक्षमेत्याशुसखी प्रदर्शितं दृष्ट्वा दुमूर्च्छां समवापसुन्दरी कृष्णोऽपि दृष्ट्वा सुरूपकौशल्ययुधां गुणाश्रयां कुर्वन्मनोरन्धुमदीवमाधवो लीलातनुःसप्रययौ स्वमन्दिरम् एवं तद कृष्णवियोगविह्वलां प्रभूतकामज्वरखिन्नमानसां संवीक्ष्य राधां वृषभानुनन्दिनीं उवाच वाचं ललिता सखीवरा ललितो वाच कथं त्वं विक्वलाराधे मूर्छिता दिव्यधां गदा यदि च शिखरिं शुभ्रुतस्मिन् स्नेहं दृढं कुरु लोकस्यापि सुखं सर्वमधिकृत्यास्ति साम्प्रतम् दुःखाग्निहृत्प्रदहदि कुम्भकाराग्निवत्सुभे श्रीनारद उवाच ललितायाश्च ललितम् वजम् श्रुत्वा व्रजेश्वरी नेत्रे उन्मील्य ललिताम् प्राकगद्गदया गिराधोवाच व्रजालङ्कारचरणौ न प्राप्तौ यदि मे कथचिद्विग्रहं तर्हि न हि स्वं धारयाम्यहं श्रीनारद उवाच इति श्रुत्वा वजस्तस्या ललिताभयविह्वला श्रीकृष्णपार्श्वं प्रययौ कृष्णाधीरे मनोहरे माधवीजालसंयोक्ते मधुरध्वनिसङ्गुले कदम्बमूले रखसि प्राकच्चैकाकिनं हरिम् ललितो वाच यस्मिन् दिने च दे रूपं राधया दृष्टमद्भुतं तद् दीनास्तम् भवताम् प्राप्ता पुत्री केवनवक्रि किम् अलङ्कारस्त्वर्चिरिव वस्त्रं भर्जरजो यथा सुगन्धिकडुवद्यस्य मन्दिरम् निर्जनं वनं पुष्पं बाणं चन्द्रबिम्बम् विषकन्दमवेहि भोः तस्यै सन्दर्शनम् देहि राधायै दुःखनाशनम् ते साक्षिणम् किम् विदिदम् न भूदले सृजस्य अलम्पासि हरस्य धो जगद यथा समानोऽसि जनेषु सर्वधस्तथापि भक्तान् भजसे परेश्वर श्रीनारद उवाच इति श्रुत्वा हरिसाक्षाल्लितं ललितावजः उवाच भगवान् देवोमेकगम्भीरया गिरा श्रीभगवानुवाच सर्वं हि भावं मनस परस्परं न प्रेमैव कर्तव्यमदोमयि प्रेम्णा समानं भुवि नास्ति यथा हि भाण्डीरवने मनोरथो बभूव तस्या हि तथा भविष्यति अहैतुकम् प्रेम च सद्भिराश्रुतम् तच्चाभिसन्ध विदुः ये राधिकाया मयि केशवे मनाक न पश्यन्ति हि दुग्धशौक्लवद त एव प्रयान्ति तद हैदुःखस्फूर्जितभक्तिलक्षणाः ये राधिकायां मयि केशवे हरौ कुर्वन्ति भेदम् कुधियोजना भुवि ते कालसूत्रम् प्रपतन्ति श्रीनारद उवाच युद्धं श्रुत्वा वच कृष्णम् नत्वा तं धां समेत्य रहसि प्राह प्रहसिता ललितो वाच त्वमिच्छसि कृष्णं तथा त्वां मधुसूदनः युवयोर्भेदरहितं तेजस्त्वयितं द्विधा जनैः तथापि देवि कृष्णाय कर्म निष्कारणं कुरु येन देवाञ्चितं भूयाद्भ्रिया परमया सदि श्रीनारद उवाच यदि श्रुत्वा सखीवाक्यं राधा रासेश्वरी नृप चन्द्राननां प्राहसखीं सर्वधर्मविदाम् वरां श्रीकृष्णस्य प्रसन्नार्थं परं सौभाग्यवर्धनं महापुण्यं वाञ्छितदं पूजनं पदकस्यचिद त्वया भद्रे धर्मशास्त्रं गर्गाचार्यमुखाच्छ्रुतम् तस्माद्व्रतम् पूजनम् वा ब्रूहि मह्यं महामदे इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे राधाकृष्णप्रेमोद्योगवर्णनम् नाम पञ्चदशोऽध्यायः ओम् अध्यायम् सिक्स्टीन् तुलसीपूजनम् श्रीनारद उवाच राधावाक्यम् तदश्रुत्वा राज सर्वसखीवरा चन्द्राननाप्रत्युवाच संविचार्यक्षणम् हृदि चन्द्राननोवाच परम् सौभाग्यदम् राधे महापुण्यम् वरप्रदं श्रीकृष्णस्यापि लभ्यर्थम् तुलसी सेवनम् मदम् दृष्ट्वा स्पृष्ट्वा धवाध्यादा कीर्तिदा नमिदा स्थुदा रोपिता सञ्जिता नित्यम् पूजिता तुलसीष्ठदा नवधा तुलसीभक्तिम् ये कुर्वन्ति दिने दिने युगकोटिसहस्राणि ते यान्ति सुकृदम् शुभे यावच्छाखा प्रशाखाभिर्बीज पुष्पदलै शुभैः रोपिता तुलसीमध्यै वर्धते वसुधाले तेषां वंशेषु ये जादा ये भविष्यन्ति ये गदाः आकल्पयुगसाहस्रं तेषां वासो गृहे सर्वा सर्वा तुलसी यदल सर्वत्रु सर्वदा राधि तुसल चर्व्यदे तुलसी तुस प्रभव पत्रै नर पूजेत्म लिप्यदेन सपपेन पदपत्रम सा सुवर्णभारशदकम् रजतम् यच्च दुर्गुणम् तद्बलम् समवाप्नोति तुलसी वनपालनात् तुलसीकाननम् राधे गृहे यस्यावतिष्ठति तद्गृहम् तीर्थरूपम् हि नयान्दियमकिङ्गरा सर्वपापहरम् पुण्यम् कामदम् तुलसीवनम् रोपयन्ति नरा श्रास्तेन पश्यन्ति भास्करीं रोपणात् पालनात् सेवादर्शनात् स्पर्शनान् नृणां तुलसीदपदे पापं वाङ्मनकाय सञ्जितं पुष्कराद्यानि तीर्थानि गङ्गाद्यासरितस्तथा वासुदेवादयो देवा, देवा वसन्ति तुलसीदले तुलसीमञ्जरीयुक्तो यस्तु प्राणान् विमुं चदि यमो विनेक्षितुं शक्तो युक्तं पापशधैरपि तुलसी काष्ठजं यस्तु चन्दनं धारयेन्नरः तद्देहं न स्पृश्यत् पापं क्रियमाणमपीयत् तुलसी विपिनछायायत्र यत्र, यत्र भवेच्छुभे तत्र श्राद्धं प्रकर्तव्यम् विदृणां दत्तमक्षय्यम् तुलस्यासखिमाहात्म्यम् आदिदेवश्च दुर्मुखः न समर्धो भवेद्वक्तुं यथा देवस्य शर्ङ्गिणः श्रीकृष्ण चन्द्रचरणे तुलसीं चन्दनायिर्युदां योद्धतादिपुमान् स्त्री वा यथोक्तं फलमाप्नुयात् तुलसीसेवनं नित्यं गुरुत्वं गोपकन्यके श्रीकृष्णो वश्यदां यादि येन वा सर्वदैव श्रीनारद उवाजा युद्धं चन्द्राननावाक्यं श्रुत्वा रासेश्वरीनृप तुलसीसेवनं साक्षादारेभे हरिदोषणं केदकीवनमध्ये च शतहस्तं सुवर्तुलम् उच्चैर्हेमखिद्भित्तिपद्मरागतडं शुभं हरिधीरकमुक्तानां प्राकारेण मकोल्लसत सर्वतस्तोलिकायुक्तं चिन्तामणि सुमण्डितं हेमध्वजसमयुक्तम् उत्तोरणविराजितं हैमयुर्विदान् है परिधो वै जयन्तीमिव स्फुरद एतादृश्यं श्रीतुलसीमन्दिरं सुमनोहरं तन्मध्ये तुलसीं स्थाप्य हरित्पल्लवशोभिधम् अभिजिन्नमनक्षत्रे तत्सेवांसा चकारः समाहूतेन गर्गेण दिष्टेन विधिनासदी सदि श्रीकृष्णतोषणार्थाय परमयासदी परमया सती यिषु समारभ्य चैत्र पूर्णावधिव्रतम् पञ्चामृतेन तुलसी मासे मासे प्रधक प्रधक। उद्यापन वैशाख उद्यापनसमारम्भं वैशाखप्रतिपदिने गर्गदिष्ठनविधिना वृषभानुसुतानृप षट्पञ्चाशत्तमैर्भोगैः ब्राह्मणानां द्वि दक्षकं संतर्प्य दक्षिणां राधिका ददौ दिव्यानां स्थूलमुक्तानां लक्षभारं विदेहराट कोटिभारं सुवर्णानां गर्गाचार्याय सा ददौ शतभारं सुवर्णानां मुक्तानां च तथैव हि भक्त्या परमया राधा ब्राह्मणे ब्राह्मणे ददौ देवदुन्दुभयो नेदुर्ननृतुश्चाक्षरोगणाः तन्मन्दिरोपरिसुरा पुष्पवर्षम्प्रचक्रीरे तदा विरासि तुलसी हरिप्रिया सुवर्णपीठोपरिशोपिदासना चतुर्भुजपद्मपदाशवीक्षणा श्यामा पुरधेमगिरीडकुण्डला पिदाम्बराच्छादिदसर्पवेणी स्रजं दधानां नववैजयन्तीं भगत्समुत्तीर्यजरङ्गवल्ली चुजुम्बराधां परिरभ्य बाहुभिः तुलस्य उवाच अहं प्रसन्नास्मि कलावदी सुदे तद्भक्तिभावेन जिदा निरन्तरम् कृतं च लोकव्यवहारसङ्ग्रहा त्वया व्रदम् भामिनि सर्वतोमुखम् मनोरथस्ते सफलोऽत्र भूयाद् बुद्धिन्द्रियैश्चित्तमनोऽभिरग्रदः सदानुकूलत्वमलम् पथे परं सौभाग्यमेवम् परिकीर्तनीयम् एवम् वदन्तीम् तुलसीम् हरिप्रियाम् नत्वा धराधा वृषभानुनन्दिनी प्रत्याह गोविंद गोविन्दपदारविन्दयोर्भक्तिर्भवेन्मे विदिदाह्यै विविदाह्य हैतुकी तथास्तु चोक्दातुलसी हरिप्रिया धान्तर्दधे मैथिलराजसत्तम तदैव राधा वृषभानुनन्दिनी प्रसन्नचित्ता स्वपुरे बभूवः श्रीराधिकाख्यानमिदम् विचित्रम् श्रृणोदियो भक्तिपरपृथिव्याम् त्रैव्यभावमनसा समेत्य राजन्तदोयादिनरकृतार्थाम् इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे तुलसीपूजनम् नाम षोडशोऽध्यायः ओम् अध्यायम् 17. राधाकृष्णसङ्गमः श्रीबहुलाश्व उवाच राधाकृष्णस्य चरितं शृण्वदो मे मनो मुने न तृप्तिं व्याधि शरदपङ्कजे भ्रमरो यथा रासेश्वर्या कृष्णपत्न्या तुलसीसेवने कृते यद्बभूव ततो ब्रह्मन् तन्मे ब्रूहितपोधन श्रीनारद उवाच राधिकायाश्च विज्ञाय तुलसीसेवनेतपः प्रीतिं परीक्षन् श्रीकृष्णो वृषभानुपुरं ययौ अद्भुतं गोपिकारूपं चलज्झङ्गारनूपुरं किङ्गिणीखण्डिकाशब्दम् अङ्गुलीयकभूषितं रत्नकङ्गणकेयूरमुक्ताहारविराजितम् बालार्कपाडङ्गलसत्कबरीपाशकौशलम् नासामौक्तिकदिव्या भंश्याम कुन्दलसङ्कुलम् धृत्वा सौ वृषभानोश्च मन्दिरं सन्ददर्शः प्राकारपरिखायुक्तं च दुर्द्वारसमन्वितम् करीन्द्रैः कञ्जलाकारैर्द्वारि द्वारिमनोहरं वायुवेगैर्मनोवेगैश्चित्रवर्णैस्तुरङ्गमैः आरतामरसंयुक्तं प्रोल्लसन्मण्डपाजिरं गवाङ्गणैः सवत्सैश्च वृषैर्धर्मधुरन्धरैः गोपाला यत्र गायन्ते वंशीव्येत्रधरा नृपा वृषभानुवरस्यैवं पश्यन् मन्दिरकौशलं मायायुवतिवेषोऽसौ तदो ह्यन्धपुरं ययौ यत्र कोटिरविस्फूर्जकपाटस्तम्भपङ्कयः रत्नाजिरेषु शोभन्दे ललनारत्नसंयुताः वीणातालमृदङ्गादिन् वादयन्त्यो मनोहराः पुष्पयष्टिसमयुक्ता गायन्द्यो राधिकागुणं तस्मिन्नन्दपुरे दिव्यम्भ्राजोभवनं महद दाढ्यमे कुन्दमन्दारनिम्बुन्नदद्रुमावृतम् केदगिमालधि वृन्दै माधवीभि विराजिदम् तत्र राधान्यगुञ्जोऽस्ति कल्पवृक्षसुगन्धिभृद पतन्ति यत्रभ्रमरा भ्रमरा मधुमत्ता नृपेश्वरा गन्धातशीदलो वायुर्मन्दगामी वहत्यलम् सहस्रदलपद्मानाम् रजो वीक्षेपयन्मुहुः पुंसकोकिला कोकिलाश्च मयूरा सारसा शुकाः पूजन्ते मधुरं नादं निकुञ्जशिखरेषु च पुष्पशय्या सहस्राणि जलकुल्या सहस्रशः प्रोत्सलन्ति स्फुरस्वारायत्र वैमेकमन्दिरे बालार्ककुण्डलधरा चित्रवस्त्राम्बराननाः वरुदन्दे कोडिशो यत्र सख्यस्तत्कर्मकौशलाः तन्मध्ये राधिकाराज्ञी भ्रमन्दी मन्दिराजिरे काश्मीरपङ्कसंयोक्ते सौक्ष्मवस्त्रविराजिरे शिरीर्षपुष्पक्षिदि तद्दल्लैरागुल्फपूरके मालधीमकरन्दानां क्षरद्भिर्बिन्दुभिर्वृदे कोडिचन्द्रप्रतिकाशा तन्वी कोमलविग्रहा शनै शनैपादपद्मं चालयन्ती च कोमलं समागतान्तां मणिमन्दिराजिरेदर्श राधा वृषभानुनन्दिनी यत् तेजसा तल्लनाहृद द्विषो जादास्त्वरं चन्द्रमसेव तारकाः विज्ञाय तद्गौरवमुत्तमम् असदुद्धाय दोर्भ्याम् परिरभ्य राधिका जलाधिकं स्थाप्य सुलोकरीत्या राधोवाच स्वागतं ते सखिशुभे दे नामधेयं वदाशुमे भूरिभाग्यं ममैवाद्य भवत्यागदया स्वदः तत्समानं दिव्यरूपं दृश्यदे न हि भूदले यत्र त्वं वर्तसे सुभ्रुपत्तनं धन्यमे वदद वददे वि सविस्तारं हेतुमागमनस्य च मम योग्यं च यत् कार्यं वक्तव्यं तत्त्वया खलु कडाक्षेण सुधु सुदीप्त्या च वचसा सुस्मितेन वै कृत्या श्रीपदिव येनैव विधिना भवेद्धि विधिर्भवत्या सदा विधेयः अयित्वदात्मादिपरं प्रियो मे त्वदा कृधि श्रीव्रजराजनन्दनः येनैव मे देवि हृदम् तु चेदस्त्वयननान् देववधूर्दधामितम् श्रीनारद उवाच एवं राधावच श्रुत्वा मायायुवदिवेशदृक उवाच भगवान कृष्णो राधां कमललोचनाम् श्रीभगवानुवाच रम्भोरुनन्दनगरे नन्दगेघस्य चोत्तरे गोकुलेव सधिर्मेऽस्ति नाम्ना नासं गोपदेवता त्वद्रूपगुणमाधुर्यं श्रुतं मे ललिता मुखाद तद्द्रष्टुं चञ्चलापाङ्गि त्वद्गृहेकं समागता श्रीमल्लवङ्गलतिकास्फुडमोदिनीनां भुञ्जानि कुञ्ज मधुपध्वनिकुञ्जपुञ्जम् दृष्टं श्रुतं न वनवन्तव कञ्चनेत्रे दिव्यं पुरन्दरपुरे विनयत्समानं श्रीनारद उवाच एवं तयोर्मेलनं तद् बभूव मिथिलेश्वर प्रीतिं परस्परं कृत्वा वने तत्र विरेजदुः असन्ध्यौ तेजगायन्ध्यौ पुष्पकन्दुकलीलया पश्यन् द्यौवनवृक्षांश्च चैरदुर्मयीथिलेश्वर कला कौशलसम्पन्नां राधां कमललोचनां गिरामधुरया राजन प्राकेदं गोपदेवता गोपदेवदो वाचा दूरे वै नन्दनगरं सन्ध्याजादाव्रजेश्वरी प्रभाते चागमिष्यामि त्वत् सकाशं न संशयः श्रीनारद उवाच श्रुत्वा वचस्तस्य तु तद्व्रजेश्वरीं निक्षिप्य सद्यो नयनाम्बुसन्ततिं रोमाञ्चहर्षोद्गमभावसंवृदा रम्भेव भूमौ पतिता मरुद्धता शङ्कागदास्तत्र सखी गणास्त्वरम् चर्चिताम् व्यजनायर्व्यवस्थिताः श्रीखण्डपुष्पद्रवचर्चितां शुकां जपादराधां गोपदेवतो वाचा प्रभादे आगमिष्यामि माशोगं गुरुराधिके गोश्च भ्रादुर्गोरसस्य शपथोमेन चेदितं श्रीनारद उवाच यवमुक्त्वा हरिराधां समाश्वास्य नृपेश्वर मायायुवतिवेषोसौ ययौ श्रीनन्दगोकुलम् इद्धि श्रीगर्गसंहितायां वृन्दावनखण्डे राधाकृष्णसङ्गमो नाम सप्तदशोऽध्यायः ओम् अध्यायम् श्रीकृष्णचन्द्रदर्शनम् श्रीनारद उवाच अधरात्र्याम् व्यदितायाम् माया योषित्वपुर्हरिः राधा दुःखप्रशान्त्यर्थम् वृषभानोर्गृहम् ययौ राधातमागतम् वीक्ष्य समुद्धायादिहर्षिता दत्ता सुनाविधानेन पूजयामास मैथिल श्रीराधोवाच त्वया विनाहम् निशि दुःखितासम् त्वया गदायाम् सखि लब्धवस्तुवद पूर्वम् ह्यपभ्यस्य सुखम् यथा तदो दुःखम् तदा भामिनि मत्प्रसङ्गदः श्रीनारद उवाच यदि श्रुत्वा ध तद्वाक्यं विमना गोपदेवता न किञ्चिदूजे श्रीराधां दुःखिदेव व्यवस्थिता विज्ञाय खेदसम्पन्नां राधिकां गोपदेवतां सखीभिः संविचार्याध जगाधस्नेहतत्पराधोवाच विमनास्त्वं कथं भद्रेवद मां गोपदेवते मात्रा भर्ता ननान्द्रा क्रोधेन भर्षीता सपत्नीकृतदोषेण स्वभर्तुर्विरहेण वा अन्यत्र लग्नचित्तेन विमना किं मनोहरि मार्गखेदेन वा कच्चिद्विह्वलाभूत् द्रुजाध वा शीघ्रम् वद महाभागे स्वस्य दुःखस्य कारणम् कृष्णभक्तमृते विप्रम् येन केनापि कुत्सितम् कथितम् ते धरम् भोरु तच्चिकित्सां करोम्यकम् गजास्वादीनि रत्नानि वस्त्राणि च धनानि च मन्दिराणि विचित्राणि गृहणत्वम् यदीच्छसि धनं दत्त्वा तनुं रक्षेत् तनुं दत्त्वा त्रपां व्यधाद धनं तनुं त्रपां दद्यान्मित्रकार्यार्थमेव हि धनं दत्त्वा च सततं रक्षेत् यो मित्रतां निष्कपटं करोति निष्कारणमं धन्यतमं स एव विधाय मैत्रीं कपडं विदध्यात्तं लम्पडं हेदुपडं नडं भित् तस्या प्रेमवच श्रुत्वा भगवान् गोपदेवता प्रखसन्नाहराजेन्द्रश्रीराधां कीर्तिनन्दिनीं गोपदेवतोवाच राधे व्रजन् सानुगिरे स्तडीषु सङ्गोचविधिषु मनोहरासु यान्दीं स्वदोमां दधि विक्रयार्थम् रुरोधमार्गे नवनन्दपुत्रः वंशीधरो वेत्रकरकरे माम् त्वरं गृहीत्वा प्रहसन् मह्यं करादानधनाय दानं देहि दि तुभ्यं न कदापि दानम् स्वयम्भुवे घोरसलं पडाय एवं मयोक्ते वजनेधभाण्डं नीत्वा विशीर्णीकृतवान् स दध्नः भाण्डं सभित्वा दधि किं जपित्वा नीत्वोत्तरीयं मम चेदुरीयं नन्दीश्वराद्रेर्विदिशं जगाम तेनाहमाराद्विमना स्म जादा जात्या सगोभ किलकृष्णवर्णोधनीन वीरो न हि शीलरूपः यस्मिं त्वया प्रेम कृतम् सुशीले त्यजाशु निर्मोहनमध्यकृष्णम् इद्धं सवैरम् परुषम् वचस्तच्छ्रुत्वा च सुविस्मिता वाक्यपदे सरस्वती पदं स्मयन्ती निजगादतां प्रदि राधो वाज यत्प्राप्तये विधिहरप्रमुखास्तपन्ति वक्नौ तपः परमया निजयोगरित्या दत्तसुखकपिल आसुरिरङ्गिरा यत् पादारविन्दमकरन्दरजस्फुरन्ति तं कृष्णमादिपुरुषं परिपूर्णदेवं लीरावतारमजमार्तिहरं जनानां भू भु, भूरिभारहरणाय सदां शुभाय जादं विनिन्दसि कथं सखि दुर्विनीदे गाः पालयन्ति सततं रजसोगवां च गङ्गां स्पृशन्ति च जपन्ति गवां सुनाम्नां सुमुखं गवां च जाधिपरानविदिदा भुवि गोपजादेः तत्कृष्णवर्णविल सुकलां समीक्ष्य तस्मिन् विलग्नमनस्सासुसखं विभाय उन्मत्तवद्व्रजदि धावधि बिभ्रत्कपर्दविषभस्मकपालसर्पान् स्वर्लोकसिद्धमुनियक्षमरुद्गणानां पाल समस्तनर किन्नरनागनादाः पाला समस्त किल बलिं प्रददु स्म तस्मै वत्साखकालीयबार्जुनधेनोकानामाचक्रवादशकटासुरपूदनानां येषां वद किमुदतस्य यशोमुरारे ह्यः को डिशोण्ड निचयो भवना सहेदुः भक्तात् प्रियो न शम्भुर्विषिधिर्न च रमा न च रौहिणे यः भक्ता ननु व्रजति भक्तिनिबद्धचित्तश्चूडामणिः सकललोकजनस्य कृष्णः गच्छन् हरिजने स्वचुर्य स्वरुचिं महात्मा तस्मादीव भजतां भगवान् मुकुन्दो मुक्तिं ददादिन कदापि शुभक्रियो गन् गोपदेवता वाचां राधे त्वदीयधिशनाधिशनं हसन्ति वाणीं श्रुतिं प्रकुशलेन विडम्बयन्ति अत्रा गमिष्यदीयदार्धहरिपरेशः सत्यं ददातिवचनं तव देवि राधो राधोवाच यथा गमिष्यदि यदाद्य हरिपरेशः किं कारयामि भवतीं वद तर्हि शुभ्रु चेदागमो नहि भवेद्वनमालिनस्वं सर्वं धनं च भवनं च ददामि तुभ्यं श्रीनारद उवाच अधराधासमुयनत्वा श्रीनन्दनन्दनम् उपविश्यासने दध्यौध्यानस्तिमितलोचना उत्कण्ठितां स्वेदयुक्तां बाष्पकण्ठीं प्रियां हरिः अश्रुपूर्णमुखीं वीक्ष्य बिभ्रत् स्वां पौरुषीं तनुम् पश्यन्दीनां सखीनां च सखसा भक्तवत्सल राधां प्राह प्रसन्नात्मामेघगम्भीरया गिरा श्रीकृष्ण उवाच रम्भोरुचन्द्रवदने व्रजसुन्दरीशे राधे प्रिये नवलयौवनमानशीले उन्मील्य नेत्रमपि पश्य समागतं ूर्णं त्वया मधुरया जगिरोपभूतम् आगच्छ कृष्ण यदि वाक्यमदश्रुतं मे सद्यो विसृज्य निजगोकुलगोपवृन्दं वंशीवडाचयमुना निकडाप्रधावन् त्वत्प्रीदयेधलनेत्र समागदोस्मी। मया गदे सदिगदासकिरूपिणीका यक्षा सुरी सुरवधू किल किन्नरीवा मयावदी चलयितुं भवतीं च तस्माद्विश्वास येवनविधेय उरङ्गपत्न्यां श्रीनारद उवाच अधरादाहरिं दृष्ट्वा नत्वा तत्पादपङ्कजम् मुदमापरं राजन् सद्यपूर्णमनोरथा एवं श्रीकृष्णचन्द्रस्य चरितान्यद्भुतानि च यशृणो दिनरो भक्रिया स कृदार्थो भवेन्नरः यदि श्रीगर्गसंहितायां वृन्दावनखण्डे श्रीकृष्णचन्द्रदर्शनं नाम अष्टादशोऽध्यायः ओम् अध्यायं नैन्टीन् रासक्रीडावर्णनम् बहुलाश्व उवाच राधायै दर्शनं दत्वा कृत्वा प्रेमपरीक्षणम् अग्रे चकारकां लीलां भगवानात्मलीलया श्रीनारद उवाच माधवो माधवे मासि माधवीभिः समाकुले वृन्दावने समारे रासं रासेश्वरस्वयं वैशाखमासि पञ्चम्यां जादे चंद्रोदये शुभे यमुनो पवने रेमे रासेश्वर्या मनोहरः भूमिर्या भूमिर्याकौ समागदा सर्वा बभूव त्वरं वृन्दावनं दिव्यवपुत् दधत् कामदुःखैर्द्रुमैः माधवीभिर्लताभिश्च प्राक्षिपन्नन्दनन्दनं रत्नसोपानसम्पन्ना स्फुरत् सौवर्णतोलिका रराजयमुना राजन्हंसपद्मादिसङ्कुला रत्नधातुमय श्रीमद्रत्नशृङ्गस्फुरद्युधिः सपक्षिगणसंयुक्तो लता पुष्पमनोहरः निर्झरै सुन्दरी भिश्चदरीभिर्भ्रमरीवृदः रे जे गोवर्धनो नाम गिरिराजकरीन्द्रवद सर्वे निकुञ्जा सभा मण्डपविधिभिप्राङ्गणस्तम्भ पङ्क्दिभिः पदत्पदाकैर्दिव्याभैः सौवर्णै कलशैर्नृप श्वेतारुणैः पुष्पदलै पुष्पमन्दिरवरुदिभिः वसन्त माधुर्यधरा कुजत् कोकिलसारसाख पारावतैर्मयूरैश्च यत्र तत्र निगूजिताः राधाकृष्णकथां पुण्यां गायमानैर्मधुव्रधैः पदद्भिर्मधुमत्तैश्च कुञ्जात् सर्वे विराजिताः पुलिने शीतलो वायुः मन्दगामी वहत्यलं सहस्रदलपद्मानाम् रजो विक्षेपयन्मुहुः काश्चित् गोलोकवासिन्य काश्चित् शय्योपकारिकाः श्रृङ्गारप्रकरा काश्चित् काश्चित् वै द्वारपालिकाः पार्श्वदाख्याः सखी जनछत्रचामरबाणयः पुष्पाभरणकारिण्य श्रीवृन्दावनपालिकाः गोवर्धननिवासिन्य काश्चित् कुञ्जविधायिकाः तन्निकुञ्जनिवासिन्यो नार्तक्यो वाद्यतत्पराः किशोरवयसा नृप आसाम् द्वादशयूथाश्च तथैव यमुना साक्षाद्युधि भूत्वा समाययौ श्वेदाम्बराश्वेदवर्णामुक्ता भरणभूषिता तथा ययौ कृष्णपत्नीनाम्नाय मधुमाधवी पद्मवर्णा पुष्पभूषा शुभाम्बरा तथैव विरजा साक्षाद्युधि भूत्वा समाययौ हरिद्वस्त्रा गौरवर्णरत्नालङ्कारभूषिता ललिताया विशाखाया मायायूधसमाययौ एवं स्वसखीनां चषकीनां किल षोडश द्वात्रिंशच्चषकीनां च यूधा सर्वे समाययुः रराजभगवान् राजन्स्त्रीगणैरास मण्डले वृन्दावने यथाकाशे चन्द्रस्तारागणर्यथा नडवेशो नडवेषो मनोहरः वेत्रभूद्वादयन् वंशीं गोपानां प्रीतिमावहसन् मयूरपक्षभृन्मौली स्रग्वी कुण्डलमण्डितः राधया शुशुभे रास्ये यधारत्यारधीश्वरः एवं गायन् हरिः साक्षात्सुन्दरी गणसंहृदः यमुनाफुलिनम् पुण्यमाय यौराधयायुधः गृहीत्वा हस्तपादेन पद्माभं स्वप्रियाकरम् निःशर्दहरिकृष्णातीरे नीरमनोहरे पुनर्जल्पन् सुमधुरं प्रियं। वृन्दावनम् प्रियम् चलन् हसन् चचारः कुञ्जे निलीयमानं तम् त्वरं त्यक्त्वा प्रियाकरम् विलोक्य शाखान्तरिदम् राधा जग्राहमाधवम् राधा दुद्राव तद्धस्ताच्छं कुर्वदीपदे निलीयमाना कुञ्जेषु पश्यदो माधवस्य च धावन् हरिर्गदो यावत् तावद्राधा तदो गदा वृक्षपार्श्वे हस्तमात्राभिधश्चेतश्च धावति तमालो हेमवल्लेव तमालो हेमवल्ल्येव खनश्चञ्चलया हेम कन्येव नीलाद्रिरेजे राधिकया हरिः राधया विश्वमोहिन्यां बभौ मदनमोहनः वृन्दावने रासरङ्गेरत्येव मदनो यद्धा धृत्वा रूपाणि तावन्दि याव व्रजयोषितः ननर्तरासरंगे ना सौरङ्गभूम्यां नडो यद्धा गायन्त्यश्चाभि नृत्यन्तः सर्वा गोप्यो मनोहराः विरेजुकृष्णचन्द्रैश्च यथा चक्रैसुराङ्गनाः वारां विहारम् कृष्णायां चकार मधुसूदनः सर्वाैर्गोपीगणैः सार्धं यक्षीभिर्यक्षराडिव कबरी केशभाशाभ्याम् प्रसूनै प्रच्युत्यै शुभैः नाय। चित्रवर्णैर्बभो कृष्णो यथोष्णि मुद्रिता तथा मृदङ्गतालैर्मधुरध्वनिस्वनैर्जगोर्यशस्ता मधुसूदनस्य प्रभुर्मुदं पूर्णमनोरथाश्चलत्प्रसूनहारा हरिणा गतव्यधाः श्रीहस्तसन्ताडित वारिबिन्दुभिः स्वारा समस्पूर्जितशीकरद्विभिः वृन्दावनेशो वृजसुन्दरीभिरेजे गजीभिर्गजराडिव स्वयम् विद्याधर्यो देवगन्धर्वपत्न्यः पश्यन्त्यस्तारासरङ्गम् दिविस्ताः र्धं चक्रिरे पुष्पवर्षम् मोहम् प्राप्ता प्रश्लदस्तव्यः इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे रासक्रीडावर्णनम् नामैकोन विंशोऽध्यायः ओम् अध्यायम् 20 रासक्रीडावर्णनम् अथ कृष्णो हरिर्वारिलीलाम् कृत्वा मनोहरः सर्वैर्गोपीगणैः सार्धम् गिरिम् गोवर्धनम् ययौ गोवर्धने कन्दरायाम् रत्नभूम्याम् हरिस्वयम् रासं च राधया सार्धं रासेश्वर्या चकारः तत्र सिंहासने रम्ये तत्तदुः पुष्पसङ्गुले तडित्खनाविभगिरौ राधाकृष्णौ विरेजधुः स्वामिन्यास्तत्र शृङ्गारम् चकृत्सख्यो मुदान्विताः श्रीखण्डकुङ्कुमाद्यैश्च यावका गुरुकञ्चलैः मकरन्धैः कीर्तिसुधाम् समभ्यर्च्य विधानतः ददौ श्रीयमुना साक्षाद्राधायै नू पुराण्यलम् मञ्जीरभूषणं दिव्यं श्रीगङ्गा जह्नुनन्दिनी श्रीरमा जालं हारं जालंहारं श्रीमधुमाधवी चन्द्रहारं च विरजाकोडिचन्द्रामलं शुभं ललिता कञ्चुकमणिं विशाखा कण्डभूषणम् अङ्गुलीयकरत्नानि ददौ चन्द्रानना तदा एकादशीराधिकायै रत्नाढ्यं कङ्कणद्वयं भुजकङ्कणरत्नानि शदच्चन्द्रानना ददौ तस्यै मधुमदी साक्षात् स्फुरद्रत्नाङ्गदद्वयम् ताडङ्गयुगलं बन्धी कुण्डले सुखदायिनी आनन्दी सखी मुख्या राधायै बालदोरणं पद्मा सद्बालतिलकं बिन्दुं चन्द्रकला ददौ नासा मौक्तिकमालोलं ददौ पद्मावती सदी बालार्कद्युदि संयुक्तम्भाजपुष्पं मनोहरं श्रीरादायै ददौ राजन् चन्द्रकान्ता सखी शुभा शिरोमणिम् सुन्दरी च रत्नवेणीम् प्रहर्षिणी भूषणे चन्द्रसूर्याख्ये विद्युत्कोटिसमप्रभे राधिकायै ददौ देवी वृन्दा वृन्दावनेश्वरी एवं शृङ्गारसंस्फोर्जद्रूपया राधया हरिः गिरिराजे बभौ राजन्यज्ञो दक्षिणया यथा यत्र वैराधया रासे शृङ्गारोकारिमैथिल तत्र गोवर्धने जातं स्थलम् शृङ्गारमण्डलम् अथ कृष्णस्वप्रियाभिर्ययौ चन्द्रसरोवरम् चकारतज्जले क्रीडां गजीभिर्गजराडिव तत्र चन्द्रसमागत्य चन्द्रकान्तौ मणीशुभौ सहस्रदलपद्मे द्वे स्वामिन्यैहरये ददौ अथ कृष्णो हरि साक्षात् पश्यन् वृन्दावनश्रियं प्रययौ बाहुलवनं लताजालसमन्वितम् तत्र स्वेदसमयुक्तं वीक्ष्य सर्वं सखीजनं रागं तुमेकं मल्लारं जगौ वंशीधरस्वयं सद्यस्तत्रैव ववृषुर्मेधा अम्बुकणांस्तथा तदैव शीतलो वायुर्ववौ गन्धमनोहरः तेन गोपीगण सर्वे सुखम् प्राप्ता विदेहराड जगुर्यस्य श्रीमुरारेरुचैस्तत्र समन्विताः तस्मात्तालवनं प्रागाश्रीकृष्णो राधिकापदिः रासमण्डलमारे भेगायन् व्रजवधूवृदः तत्र गोपीगण सर्वे स्वेद युक्तास्तृशातुराः गोप्य ऊचुः ऊचू रासेश्वरं रासे कृताञ्जलिपुडाशनैः दूरं वैयमुना देवतृषा जाता परं हिनः कर्तव्यं भवदात्रैव राशे दिव्यं मनोहरं वारां विहारं पानं च करिष्यामो वयम् श्रीनारद उवाच जगत्कर्तापालकस्त्वम् संहारस्यापि नायकः तच्छ्रुत्वा वेत्रदण्डेन भूमिं तताढः तदैव निर्गतस्रोधो वेत्रगङ्गेधिगध्यदे यज्जलस्पर्शमात्रेण ब्रह्महत्या प्रमुच्य दे, दे। तत्र स्नात्वा गोपीभि राधया सार्धं श्रीकृष्णो भगवान् हरिः वारां विहारं कृतवान् देवो मदनमोहनः ततः कुमुद्वनं प्राप्तो लता वृन्दं मनोहरं भ्रमरध्वनि संयुक्तं चक्रेरासं सखी जनैः राधा तत्रैव शृङ्कारम् श्रीकृष्णस्य चकारः पुष्पैर्नानाविधायैर्द्रव्याय पश्यन्दीनाम् व्रजौकसाम् चम्पकोद्यत्परिकरस्वर्णयूधी भुजाङ्गतका सहस्रदलराजीवकर्णिका विलसच्छ्रुतिः मोहिनी मालिनी कुन्दकेतकीहारभृद्धरिः कदम्बपुष्पविलसत्किरीडकडकोज्ज्वलः मन्दारपुष्पोत्तरीय पद्मयष्टिधरप्रभुः तुलसीमञ्जरीयुक्तवनमाला विभूषितः एवं शृङ्गारदां प्राप्त श्रीकृष्ण प्रियौ स्वया बभव कुमुद्वने राजन् वसन्दो हर्षितो यथा मृदङ्गवीणा वशीभिर्मुरुयष्टिसुकांस्यकैः तालशेषैस्तलैर्युक्ता जगुर्गोप्यो मनोहरं भैरवम् मेखमल्लारम् दीपकम् वा श्रीरागं चापि हिन्दोलं रागमेवं पृथक् पृथक् अष्टतालैस्त्रिभिर्घ्रामै स्वरैः सप्तभिरग्रदः नृत्यैर्नानाविधैरम्यैर्हभावसमन्वितैः तोषयन्द्यो हरिं रास्दाम् कडाक्षैर्व्रज व्रजगोपिकाः गायन्मधुवनं प्रागा सुन्दरी गणसंवृतः रासेश्वर्या रासलीलां चक्रे रासेश्वरस्वयं वैशाखचन्द्रकौमुद्यामालदी गन्धवायुना स्फुरसुगन्धकह्लारपद्रेणोत्करेण वै विकजन्माधवी वृन्दै शोभिते निर्जने वने प्रेमे गोपीकणयि कृष्णो नन्दने वृत्रहायथा इति श्रीवर्गसंहितायां वृन्दावनखण्डे रासक्रीडावर्णनं नाम विंशोऽध्यायः ओम् अध्यायं 21 रासक्रीडावर्णनम् श्रीनारद उवाच युद्धं कुन्दवने रम्ये मालदीनां वने शुभे आम्राणां नागरङ्गाणां निम्बूनां सखने वने दाडिमीनां च द्राक्षाणां बदामानां वने नृपा कदम्बानां श्रीफलानां कुडजानां तथैव च पडानां पनसानां च पिप्पलानां वने शुभे तुलसी कोविदाराणां केदगी कदलीवने करिल कुञ्जबकुलमन्दाराणां वने हरिः चरन्कामवनं प्रागाद्राजन् व्रजवधूवृदः तत्रैव पर्वदे कृष्णो ननादमुरलीकलं मूर्च्छिदा विह्वला जादास्तन्नादेन व्रजाङ्गनाः मनोजबाणभिन्नाङ्गाश्लधन्निव्यसुरैः सह कस्मलं प्रययू राजन्विमानेष्वमराङ्गनाः चतुर्विधा जीवशङ्खास्तावरायिर्मोहमास्थिताः नद्यो नद्धास्तिरीभूता पर्वदा द्रवदाङ्गताः तत्पादचिह्नसंयुक्तो गिरिकामवने भवद तस्य दर्शनमात्रेण नरो अथ गोपीगणैसाकं श्रीकृष्णो राधिकापदिहि नन्दीश्वर बृहत्सानुतडे रासं चकारः तत्र गोप्योदिमानिन्यो बभूवुर्मैथिलेश्वर तास्त्य कृत्वाराधया सार्धं तत्रैवान्तर्दधेहरिः गोप्यश्च सर्वा विरहा दुराभृशं कृष्णं विना मैथिलनिर्जने वने ता बभ्रुमुश्चाश्रु कलाकुलाक्ष्यो यथा हिरण्यश्चकिता इतस्ततः कृष्णम् ह्य पश्यन्त्य इ दिव्यथाम् गता यथा करिण्यकरिणम् वने वने यथा कुरर्यकुररम् व्रजाङ्गनाः सर्वा रुदन्ध्यो विरहाराभृशम् उन्मत्तवद्वृक्षलता कदम्बम् उन्मत्तवद्वृक्षलता कदम्बकम् सर्वं मिलित्वा च पृदघ्वने वने पप्रच्छुरारा धनं कुत्र स्थितं तं वदता श्रीकृष्णकृष्णेदिगिरावदन्त्य श्रीकृष्णपादाम्बुजलग्नमानसाः श्रीकृष्णरूपास्तु बभूवुरङ्घनाः चित्रं न पेष्यस्कृतमेत्यकीडवद श्रीपादुकाब्धस्तलगोपी गोप्य श्रीपादुकाब्जं शरणं प्रपन्नाः तदस्तु तत्प्रसादेन तत्पदार्चनदर्शनाद ददृश्युर्गां तदा गोप्यो भगवत्पादचिह्नितां दा श्रीबहुलाश्व उवाच राधेशो राधया सार्धं सङ्गेदवडमाविशद प्रिया या कबरीपुष्परचनां स चकारः श्रीनारद उवाच श्रीकृष्णो राधया सार्धं सङ्केत वडमाविशद चित्रपत्रा वलीकृष्णपूर्णेन्दुमुखमण्डली एवं कृष्णो भद्रवनं कदिराणां वनं महद बिल्वानां च वनं पश्यन् कोकिलाख्यं वनं गदः गोप्यकृष्णं विचिन्वन्द्यो ददृशस्तत्पदानि च यवचक्रध्वजक्षत्रै स्वस्ति काङ्गुषबिन्दुभिः अष्टकोणेन वज्रेण पद्मेनाभियुतानि च नीलशङ्खैर्मत्रिकोणेषूर्ध्वधारकैः धनुर्गोरचन्द्रार्थशोभितानि महात्मनः तत्पदान्यनुसारेण व्रजन्त्यो गोपिकास्तदः तद्रजसदं नीत्वा धृत्वा मूर्ध्नि व्रजाङ्गनाः पदान्य ददृशुरन्यचिह्नान्वितानि च केदुः पद्मा तपत्रैश्च यवेनाधोर्ध्वरेखया चक्रचन्द्रार्धाम् कुशकैर्बिन्दुभिः लवङ्गलतिकाभिश्च विचित्रानि विदेहराड गता पाडीन शङ्खैश्च गिरिराजेन शक्तिभिः सिंहासनरथाभ्याम् च बिन्दुद्वययुधानि च वीक्ष्य प्राहु राधिकया गतौ सौ नन्दनन्दनः पश्यत्यस्तत्पादपद्मम् कोकिलाख्यम् वनम् गोपी कोलाहलं श्रुत्वा राधिकां प्राखमाधवः कोडीचन्द्रप्रतिकाशे राधे सर्पत्वरं प्रिये आगता गोपिका सर्वास्त्वाम् नेष्यन्ति हि सर्वतः तदा मानवधिराधा भूत्वा प्राहरमापदिं रूपयौवनकौशल्यशीलगर्वसमन्विता राधोवाच चलितुं न समर्थाकं मन्दिरान्न विनिर्गता सुकुमारीस्वेदयुक्ता कथमां नयसि प्रिय नारद उवाच इति वाक्यं तदश्रुत्वा श्रीकृष्णराधिकेश्वरः पीताम्बरेण दिव्येन वायुं तस्य ऐ चकारः हस्तम् गृहीत्वा तामाह गच्छ राधे यथा सुखम् कृष्णेनापि तदा प्रोक्ता नयौ तेन वै पुनः पृष्ठम् दत्त्वा दहरये तूष्णीं भूतास्तिदा पुनः प्रियां मानवतीं राधां प्राहकृष्णः सदा प्रियः श्रीभगवानुवाज विहाय गोपीरिह कामयाना मानि च दशा त्वां यत्ते प्रियं तत्प्रकरोमि राधे मे स्कन्धमारुह्य सुखं व्रजाशु श्रीनारद उवाच एवं प्रियां प्रियतमस्कन्ध यानेऽप्सिदा नृप विहायान्धर्दधे कृष्णो स्वच्छन्दगदिरीश्वरः कतमाना कीर्तिसुधा भगवद्विरहादुरा उच्चैरुरोदराजेन्द्रकोकिलाख्ये वने परे तथैव युधा सम्भ्राता गोपीनां मैथिलेश्वर तद्रोदनं दुःखधरं श्रुत्वा जग्मुस्त्र काश्चित्तामगरं तैश्च स्नापयां चक्रुरीश्वरीं चन्दना गुरुकस्तूरी कुङ्गुमद्रवसीकरैः वायं चक्रुस्तदङ्गेष्वव्यजनान्दोलचमरैः आश्वास्य वाग्धिपरमां नानानुनयकोविदैः तन्मुखान्मानिनो मानं श्रुत्वा कृष्णस्य गोपिकाः मानवन्द्योमैलेन्द्रविस्मयम् परमं ययुः यदि श्रीगर्गसंहितायां वृन्दावनखने रासक्रीडा वर्णनं नामैकविंशोऽध्यायः ओम्